मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं फोर्टि टु चिन्तामण्यन्तर्धानवर्णनं श्रीगणेशाय नमः कपिल उवाच एतादृशी महाभक्तिस्त्वदीया गणनायक यदा सर्वे प्रकुर्वन्ति तदा विश्वं कथं भवेद् सर्वेभ्य श्रेष्ठभावेन जानन्दि त्वां यदा नराः तदा त्वां सर्वभावेन भजन्ते तेन संशयः श्रेष्ठार्थिनो नरः सर्वे भजन्ते शीघ्रसिद्धये देवेन्द्रास्त्वां परित्यज्यान्यान् ब्रह्मपकथं वद हिन्दामणिरुवाच मया सृष्टं जगत् सर्वं नानाभावमयं मुने नानाभावयुधा सर्वे न ना भजन्ते तु मां सदा सदुर्नां देवमुख्यानां कृत्वा भजनमुत्तमं तेन शुद्धान्तरात्मानो मां भजन्ते ततः परम् अन्यच्च शृणो वाक्यं मया मायाप्रकाशिता सर्वश्रेष्ठतमं मां ते नजानन्दि प्रमोहिताः यदाहं मायया विप्र छादयामि न मे वपुः तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवन्ति मया नानावताराश्च कृतास्त्रैलोक्यगेषु वै देवादीनां प्रगेहेषु तादृशं मां वदन्ति अग्र पूज्यत्वमेवं यत्सर्वपूज्यत्वमज सा शिवेन दत्तमस्मै तत् गणेशाय वदन्ति ते मायया मोहिदा मे मां शिवपुत्रं शिवेनैव स्थापितं प्रवदन्ति शिवगणस्वरूपोऽयं मुक्तिं दातुं न च कामपूरो गणेश्वरः इत्यादिभावा बहवो मया विप्रकाशिताः क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानन्ति नो चेत् स्वानन्दगाः सर्वे भवन्त्यत्र संशयः हा। निर्मोहात् कल्पपर्यन्तं जगन्नैव प्रवर्तते अन्यच्च कर्मणा सर्वं ब्रह्माण्डं जनसंयुतं नानाभावात्ममोहस्तं भवते नेकनिश्चयाद अन्ते मदीयभावस्था भवन्दे शुद्धचेदशः वेदशास्त्रार्थतत्त्वज्ञास्वयमेव महामुने अहं साक्षाद् बुद्धिपधिकृत्वा बुद्धेश्च चालनं गोपयामि गणेशस्य स्वरूपं देहिनां हृदि तेन मां नैव जानन्ति जना परमगं कदा विवेकमार्गं ते तत्र वदामि शृणु यत्नदः कृते मां पूर्णभावेन भजन्ते सर्वमानवाः अज्ञानावरणैर्हीना श्रेष्ठं ते प्रवदन्ति प्रेदायां पादहीनेन मां भजन्ते नरामुने पञ्चायतनभावेन पञ्चश्रेष्ठान् वदन्ति ते तत्र सर्वेषु साम्येन मां भजन्तेन संशयः चतुर्भ्यश्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् द्वापरे द्विपदाहीनम् मां भजन्ते सुरादयः वदन्ति न्यूनरूपम् तु चतुर्भ्यः शङ्करात्मजम् व्यदशास्त्रे पुराणेषु जानन्ति मानवाः मोहेन युगमानेन माम् न्यूनम् प्रवदन्ति सर्वं सर्व्रह्मेदि वेदेशु कथिम त्र किं भवनूपथा गणनायक कलौत्री पादीन मानेन भजन ते वदी वै नरात्र मलजों गजानन शिवस्य वरदाने नाग्र वरदानेनाग्रपूज्योऽयं गणेश्वरः सर्वपूज्यो यदा दैत्या जन्तवो वरसंयुताः सर्वं ब्रह्मेदि वेदेषु कथितं तेन विघ्नपः शिव शिववरबलेनैव मुनीन्द्रकैः स्वसत्तासंयुधो देवो नायं चिन्तामणि कदा बलेनाद्यो वरयुक्दो बभूवः कलिप्रान्ते मुने लोका न भजिष्यन्ति मां कदा एकपादमयी भक्तिर्नाश्यं यास्यति निश्चितम् मदभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः शिव आदिकान् सर्वे भजन्ते त्वग्रपूज्यकान् सर्वपूज्याग्रपूज्य त्वं नष्टं भवति मे ततः अन्ते सर्वे नरकेषु पचन्ति वै युगमानसिध्य मेत्र महामुने कर्मा कर्मा कर्म विकर्माता विभागश न कौमी यदा कम चेताक युगेभ्य निषल भवतीहो नरकादय आख्यादाः स्वर्गाश्चैव महामुने भवन्ति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् शुभाशुभमयं सर्वं मया स्ववरदानदः स्थापितं तेन मोहेन मां न जानन्तिमूलगम् चेष्टितं महद मा संशयं मुने त्वं तु कपिल उवाच एवमुक्त्वा गणेशानो मामन्तर्धानमाकरोद अहं खेदसमयुक्तो हृदयेत्तमलोकयं मया सौस्तापितश्चिन्तामणिर्विप्र परेश्वरः पूजयामि भजे नित्यं भक्तिभावसमन्वितः यदत्ते कथितं सर्वं रहस्यं तस्य धीमदः लोकस्य तेन यत्प्रोक्तं भजदं भक्तिसंयुधः त्वं साक्षाद्गाणपत्यश्च देहधारीणसंशयः तव दर्शनमात्रेण सर्वे भूता भवन्ति च गार्ग्य उवाच श्रुत्वैवं मुद्गलो योगी महत्स्वानन्दलोककम् माहात्म्यं विस्मितो भूत्वा प्रणनाम महामुनिं चिन्तामणिं समभ्यर्थ्य प्रणम्य कपिलं पुनः मुद्गलस्वाश्रमम् राजन् प्रयौ गणपेरतः एवं ते सर्वमख्यातं भजतं भावसंयुतः अनेन जडदेहेन स्वानन्दं लभसे नृप मुद्गल उवाच एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ऐलोपि गणराजं तं लक्षसंज्ञं निरन्तरं सेव्यस्वानन्दगो भूत्वा भजते तं प्रजापदे ॐ तत्सदिति श्रीमदाे पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ओम्